ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 51 सगरचरितं सगर उवाच कुशलं मम सर्वत्र महर्षे नात्र संशयः यस्य मे त्वमनुध्यादाशमं भार्गवसत्तमः यस्तथाशिक्षितः पूर्वमस्त्रे शस्त्रे च साम्प्रतं सोऽहं कथमशक्र्यां सकलारिविनिग्रहे त्वं मे गुरुःसुहृदैवं बन्धुर्मित्रं च केवलं नश्यन्यमभिजानामि त्वामृदे पितरं च मे त्वयोपदिष्टेनास्त्रेण सकला भूभृतो मया विजिदा यदनुस्मृत्या शक्तिसा तपसस्तव तपसा त्वं सर्वं पुनासि परिभासि च स्रष्टुं संहर्तुमपि च शक्नोष्येव न संशयः महाननन्य ते इह तस्यैकदेशोऽपि दृश्यते विस्मयप्रदः पश्य सिंहासने बाल्यादुपेत्य मृगबोधकः पिबत्यम्बश्य नैर्ब्रह्मन्निशङ्गं ते तपोवने ध विस्रम्भात् कृशापि हरिणीस्थनं करोति मृगश्रृङ्गाग्रे गण्डकण्डूयनमृरुः नवप्रसूदां हरिणीं हत्वा वृत्यैवनान्तरे व्याघ्रीत्वत्तपसावासे सैव पुष्णादि तत् शिशून् गजं द्रुतमनुधृत्य सिंहो यस्मादिदं वनं प्रविष्ठो नुसरन्तौ त्वद्भयादेकत्र तिष्ठतः न कुलस्त्वाशुमार्जारमयूरशपन्नः वृकसूकरशार्दूलशरभर्क्षप्लवङ्गमाः सृगाला गवयागावो गावो हरिणा वनेत्रसहजं वैरं हित्वा मैत्रीमुपागताः एवंविधा तपशक्तिर्लोकविस्मयदायिनी न क्वापि दृश्यते अहं तु त्वत्प्रसादेन विजित्य वसुधामि मां सह विप्रर्षेत् स्वराज्यं समुपागतः पश्यामात्यस्त्रिवर्गेऽपि यथा योग्यकृतादरः त्वयोपदिष्टमार्गेण सम्यग्राज्यमपालयं एवं प्रवर्तमानस्य मम राज्येव तिष्ठतः भवद्दिदृक्षा संजाता सापेक्षा भृगुपुङ्गव किं त्वद्यमयि पर्याप्तमनपत्यतयैव मे पितृपिण्डप्रदानेन सह संरक्षणं भुवः तदिदं दुशमत्यर्थमनिवार्यं मनोगतं नानयोपहर्तां लोकंस्मिन्ममेदित्वामुपागतः इत्युक्तः सगरेणाधस्थित्वा सोतर्मनः क्षणम् उवाच भगवानौर्वसनिदेशमिदं वचः नियम्य सः भार्याभ्यां किञ्चित्कालमिहावस अवाप्स्यति तदोऽभीष्टं भवान्नात्र विचारमा स च तत्र वसत्प्रीतस्तत् शुश्रूषा परायमः पत्नीभ्यां सह धर्मात्मा भक्तियुक्तश्चिरं तदा राजपत्न्यौ च देतस्य सर्वकालमतन्द्रिते मुनेरतनुतां प्रीतिं विनयाचारभक्तिभिः भक्त्या शुश्रूषया चैव तयोस्तुष्टो महामुनिः राजपत्न्यौ समाहूय इदं वचनमब्रवीद भवत्यौ वरमस्मत्तोऽव्रियदां काममीप्सितं दास्यामि तं न सन्देहो यद्यपि स्यात् सुदुर्लभं तदप्रणम्य शिरसा तेऽप्युभे तं महामुनिम् ऊच दोर्भगवान्पुत्रान् कामया वेदि सादरं तदस्ते भगवानाः भवदीभ्यां मया पुनः राज्ञश्च प्रियकामेन वरो दत्तोयमीप्सितः पुत्रवत्यौ महाभागे भवत्यौ मत्प्रसादतः भवेदां ध्रुवमन्यच्च श्रूयतां वचनं मम पुत्रो भविष्यत्येकस्यामेकसो नदिधार्मिकः तथापि तस्य कल्पान्तं सम्भूतिश्च भविष्यति षष्ठिपुत्रसहस्राणामपरस्यां च जायते अकृतार्ताश्च ते सर्वे विनङ्क्ष्यन्त्यचिरादिव एवंविध गुणेभेदो वरौ दत्तौ मया युवाम् अभीप्सितं तु यद्यस्या स्वेच्छया तत्प्रकीर्त्यतां एवमुक्ते तु मुनिना वैदर्भ्यान्वयवर्धनं वरयामासनयं पुत्रान्यास्तथा परा यदि दत्त्वा राज्ञे सगराय महामुनिः सभार्यामनुमान्यैनं विससर्जपुरीं प्रदीं मुनिना समनुज्ञाधकृतप्रत्यो महीपतिः रथमारुह्य वेगेन सप्रियः प्रययौ पुरीं सप्रविश्य पुरीं रम्यां दृष्टपृष्टजनावृताम् आनन्दितः पौरजनैरेमे परमया मुदा यदस्मिन्नेव काले तु राजपत्न्या वुभे नृपराज्ञे प्रावोचतां गर्भं मुदा परमयायुधे स्ववृद्धे च तयोर्गर्भशुक्लपक्षे यद्धोडुराढ सह सतोषसंपत् पित्रो पौरजन से चपूर्णे तदकाले मुहूर्ते सुभे केशिनीशुभे असूयताग्निगर्भम कुमारमे दुदि जातकर्माक यहा असमञ्चस इत्येव नाम तस्या करोन्नृपः सुमधिश्चापि तत्काले गर्भालाभमसूय सम्प्रसूदं तुदं त्यक्तं दृष्ट्वा राजा करोन्मनः तत् ज्ञात्वा भगवान्नर्वस्तत्र गच्छद्यदृच्छया सम्यक् सम्भावितो राज्ञा तमुवाजत्वरान्वितः गर्भाला बुरयं राजन्नत्य क्रं भवतार्हति पुत्राणां षष्टिसाहस्रबीजभूदो यतस्तव तस्मात्तत् सकलीकृत्य कृतकुम्भेषु यत्नतः निहिक्षिप्य सपिधानेषु रक्षणीयं पृथक् पृथक् सम्यगेवं कृते राजन् भवदो मत्प्रसादतः यथोक्तसंख्यापत्राणां भविष्यदिनसंशयः काले पूर्णे तधकुंभा पृथक यं ते ष्टिसहस्रम पुत्रण जायते नृप्त भगवा नौस्तवाभु राजा चाच्रे यथौर्वेण समीरिदं तदस्संवत्सरे पूर्णे हृदकुम्भात्क्रमेण ते पित्वा भित्त्वा पुनर्जज्ञुत्सहसैवानुवासरं एवं क्रमेण सञ्जास्तनयास्ते महीपते वृद्धुसङ्कषो राजन् षष्टिसहस्रसङ्ख्यया अपृथग्धर्मचरणा महाबलपराक्रमाः बभुवुस्ते दुराधर्षाक्रूरात्मानो विशेषतः सनादिप्रीतिमांस्तेषु राजा केशिनीतनयं त्वेकं बहुमानसुतं प्रियं विवाहं विधिवत्तस्मै कारयामास पार्थिवः स चाप्यानन्दयामास स्वगुणैः सुहृदोऽखिलान् एवं प्रवर्ततमानस्य केशिनीतन यस्य तु अजायद सुधश्रीमानांशुमानिधि विश्रुतः सबाल्य एवमधिमानुदारैस्वगुणैर्भृश्यं प्रीणयामास सुधृतस्वपितामहमेव च एतस्मिन्नन्तरे राज्ञस्तस्य पुत्रो समञ्जसः आविष्टो नष्ट चेष्टो सपिशाचेन केनचिद स तु कश्चिदभूद्वैष्यः पूर्वजन्मनि धर्मविदः कस्याचिद्विषये राज्ञप्रबोद धनधान्यवान् स कदाचिदरण्येषु विचरन्निधिमुत्तमम् दृष्ट्वा गृहीदुमारेभे वणिग्लो भवरिप्लुतः ततस्तद्रक्षकोभ्येत्य पिशाचः प्राहतं तदा क्षुद्धितोऽहं चिरादस्मिन्निवसन्निधिपालकः तस्मात्तत्परिहाराय मम दत्त्वा गवामिषन् कामदः <Sess> प्रतिगृह्णीष्वनिधिमेनं ममाज्ञया स तस्मै तत्परिश्रुत्य दास्यामीति गवामिश्रम् आदत्त च निधिं तं तु पिशाचेनानुमोदितः न प्रादाच्च ततो प्रतिश्रुधा प्रदानोद्धरोषं न श्रद्धे नृप तमेवं सुचिरं कालं प्रदीक्ष्या शनकाङ्क्षया अपनीतधनः सोऽपि ममारव्यधिदह क्षुधा वैश्योऽपि बालो मरणं संप्राप्य सगरस्य बभूव काले केशिन्यां तनयोन्वयवर्धनः अशरीरस्पिशाचेऽपि पूर्ववैरमनुस्मरन् वायुभूतो विशदेहं राजपुत्रस्य भूपते तेनाविष्टस्ततसोऽपि क्रूरचित्तो भवत्तदा मदिविभ्रंशमास्साद्य मुहुस्तेन बलात्कृतः असमञ्चसत्त्वं नगरे चक्रे सोपि नृशंस वद बालांश्च यूनस्तविरान्योषितश्च सदा कलः हत्वा हत्वा प्रचिक्षेप सरय्वामदिनिर्दयः ततः पौरजनाः सर्वे दृष्ट्वा तस्य कदर्यताम् बहुशो निकृतास्तेन गत्वा राज्ञे व्यजिज्ञपन् राजा च तदुपसृत्यतमाहूय प्रयत्नतः पारयामास बहुधा दुःखेन महतान्वितः बहुशः प्रदिशिद्धोऽपि पित्रा तेन महात्मना जले तप्ते च संतप्ताः सं बभूवुर्यथायवाः नाशकतं यदा पापाद्विनिवर्तयितुं नृपः लोकापवादभिरुत्वाद्विषयान त्यजत्तदा यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरचरिदे स मञ्चसत्यागो नामैक पंचश्तम ओम।